अथ त्रिंशः सर्गः ततस्तमक्षोऽभ्यबलम् लङ्काधिपतये चराः सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् जातोद्वेगोऽभवत् किञ्चिच्छार्दूलम् वाक्यमब्रवीत् अयथा वच्यते वर्णो दीनश्चासि निशाचरा नासि कच्चिरमित्राणाम् क्रुद्धानाम् वशमागतः इति तेनानुशिष्टस्तु वाचम् मन्दमुदीरयन् तदा राक्षसशार्दूलम् शार्दूलो भयविक्लवः न ते चारयितुम् शक्या राजन् वानरपुङ्गवाः विक्रान्ताबलवन्तश्च राघवेण च रक्षिताः नापि सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः प्रविष्टमात्रे ज्ञातोऽहम् बले तस्मिन् विचारिते बला गृहीतो रक्षोभिर्बहुधास्मि विचारितः जानुभिर्मुष्टिभिर्दन्तैः स्थलैश्चाभिहतो भृशम् परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः परिणीय च सर्वत्र नीतोऽहम् राम रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः राघवेण परित्रातो मामेति च यदृच्छया एष शैलशिलाभिस्तु पूरयित्वा महार्णवम् द्वारमाश्रित्यलङ्काय रामस्तिष्ठति सायुधः गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः माम् विसृज्य महातेजालङ्कामेवातिवर्तते पुरा प्राकारमायातिक्षिप्रमेकतरम् कुरु सीताम् वापि प्रयच्छाशु युद्धम् वापि प्रदीयता मनसा तत्तदाप्रेक्ष्यतच्छ्रुत्वा राक्षसाधिपः श्वार्दूलम् सुमहद्वाक्यमथोवाच स रावणः यदि माम् प्रति युध्यन्ते देवगन्धर्वदानवाः नैव सीताम् प्रदास्यामि सर्वलोकभयादपि एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् चरिता भवता सेनाक्षेत्रशूराः प्लवङ्गमाः किम् प्रभा कीदृशाः सौम्यवानराये दुरासदाः कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षसा तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बलाबलम् अवश्यम् खलु सङ्ख्यानम् कर्तव्यम् युद्धमिच्छत अथैव मुक्तः शार्दूलो रावणेनोत्तमः इदम् वचनमारेभे वक्तुम् रावणसन्निधौ अथर्क्षरजसः पुत्रो युधिराजन् सुदुर्जयः गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रशतक्रतोः कदनम् यस्य पुत्रेण कृतमेकेन रक्षसा सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान् सौम्यः सोमात्मजश्चात्र राजम् दधिमुखः कपिः सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः मृत्युर्वानररूपेण नूनम् सृष्टः स्वयम्भुवा पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम् अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः नप्ता शक्रस्य दुर्धर्षो बलवानम् गदो युवा मयीन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ पुत्रावैवस्व श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे पुत्रो दशरथस्यैष सिंहसंहननो युवा दूषणो निहतोर्येन खरश्च त्रिशिरास्तथा नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन विराधो निहतोर्य कबन्धश्चान्तकोपमः वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ जनस्थानगता येन तावन्तो राक्षसा हताः लक्ष्मणश्चात्र वर्षभः यस्य बाणपथम् प्राप्य न जीवेदपि वासवः श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवङ्गमः विश्वकर्मसुतो विक्रान्तो वेगवानत्र वसुपुत्रः सदुर्धरः राक्षसानाम् वरिष्ठश्च तव भ्राता विभीषणः प्रतिगृह्य पुरीम् लंकां राघवस्य हिते रतः इति सर्वम् समाख्यातम् तथा वैवानरम् बलम् सुवेलेऽधिष्ठितम् शैले शेषकार्ये भवान् गतिः शे श्रीमद्राणे वाल्मीकए आदि का्युद्धकांडे त्रिंश सर्ग